अष्टमोऽध्यायः अमेरिकां प्रति स्वामी दक्षिणसीमायां भारतस्य स्थितं स्थलं कन्याकुमारी प्रथितं गतो यात्रां प्रवर्तयन् कन्याया पार्वतीदेव्या मन्दिरं प्राप्तवान् तथा भूमौ निपत्यसाष्टाङ्गं प्रणामम् अकरोदपि मन्दिराद्बहिरागत्य स्वामी सिन्धुतटे स्थितः ददर्श जले कन्किञ्चित् दूरे स्थूलशिलाद्वयं तत्रोपविश्य ध्याले स मग्नो भवितुमिष्टवान् किन्तु तत्र कथं यायामिति स्वामी व्यभिव्यचिन्तयत् चलित्वा क्षणेन छडेन स प्रापस्थूलशिलां धृतम् आसीत् वा तत्र सध्याले लीलो भूतविलम्बितं यदा समाधिमग्नससागरस्थशिलोपरि दयनीयस्थितिं स्वस्य मातृभूम्या व्यचारयत् भ्रमणं कृतवानेव स आसीत् हिमाचलं व्यलोकयस्वनेत्राभ्यां दुःस्थितिं भारतस्य च शासकश्चापि भूस्वावि धर्माचार्यगणस्तथा सर्वेऽपि ददति क्लेशं जनतायै निरन्तरम् एतस्यां दुरवस्थायां कर्तव्यं सस्य किं भवेद् विस्मृत्य सर्वमेतत्तो भजेन्निसङ्गतां स किम् सन्न्यासी देवसेवार्थं प्रतिज्ञाबद्ध एव च देवये स जनद्वारा भवति ध्रुवं जनानां सेवनं भिन्नं नास्ति तैव तसेवनात् अथ च भारतीयानां सेवां प्रथममाचरेत् कथमेतत्तु कर्तव्यं चिन्तय सा तमपीडयत् सेवकाश्च धनं चापि भवितव्यं तु तत्कृते सेवनार्थं तु यो न स संलभे आवश्यकं धनं किन्तु कुतो वा सन्न्यासी केवलं सोऽस्ति निर्धनो याचकस्तथा दरिद्राप्रायस सन्ति तदीया राधकापि सपद्येव समुद्भूत तच्चित्ते कश्चिदाशयः किं न गच्छेदमेरिकादेशं सधनसंहृतम् प्राक्तनज्ञानमस्माकं तद्देशाय स दास्यते शास्त्रसङ्केतिकज्ञानम् आप्नुयां वयं ततः प्रयुज्य तादृशं ज्ञानं भारतं साधयेदपि आर्थिकोन्नतिमित्येवं स्वामिना परिचिन्तितम् धर्मसम्बन्धिनी मेला चिकागोनगरे भवेत् तस्मिन् भागं ग्रहीतुं तं जन कश्चिदुपासर सम्मेलनाय गच्छत्वं चण्डवा तं सृजापि वचनं तस्य मित्राणां स्मरति त्यक्त्वा सागरे भूयो तीरं प्रत्यागतो द्रुतम् उत्तराभिमुखं गत्वा स रामेश्वरमागतः रामनाडीति राजस्य नृपं मध्ये स दृष्टवान् चिकागोनगरं गन्तुं स्वामिनं सोऽप्यसूचयत् साहाय्यं तत्कृते दातुं राजा सज्जो बभूव च पश्चादिदं प्रति स्वामी चिन्तयेदिति सोऽवदत् पुराणकृतिनं स्थानं रामेश्वरमिति ध्रुवं स्वामिनो दीर्घकालेख्या तत्पुण्यस्थलमीक्षितुं सवाञ्छा पूरणार्थं उत्तरेण ततो पुदुच्चेरीप्रदेशं स प्रथमं गतवान् तथा मद्रासद्यतनं चेन्नैनगरं स उपागतः त्रागे वात्र प्रसिद्धो भूस्वामिनो नाम निश्चितम् तस्याभिवादनं कश्चित् युवसङ्गसमाचर आरब्धं तैर्जनैरेव स्वामिनः कर्मभारते चिकागोगनं गमनं तस्य स्वामिनोत्र स्थिति कृतं तत्कृतेपेक्षितं वित्तं तस्य भक्तैः समाश्रितम् हैदराबादिति प्रोक्ते स्थले दक्षिणभारते प्रथमत्वेन सञ्जातं तस्य सामान्यभाषणम् सर्वे श्रोतार आकृष्टा स्वामिनो भाषणेन च तस्य वैभवमे तस्मिन् विषयेऽत्र प्रकाशितम् अमेरिकाप्रायाणार्थं चेन्नैनगरवासिनः केचिद्भक्तजना वित्तं तस्मै दातुं समानयत् अङ्गीकृतं न दे तेनेदं तथैव वा प्रोक्तवान् स्व यद् सर्वं दरिद्रेभ्यः प्रती प्रतीयताम् विदेशं प्रति यात्रा काली माता यदीक्षते त्वयमेव समागच्छेद् आवश्यकधनं दृढम् स्वप्नदर्शनमेकस्मिन् दिवसे स्वामिनोऽभवत् ददर्श गुरुदेवं स प्रविशन्तं जलं तदा स्वस्यानुगमनं कर्तुं गुरुस्वामिनमादिशत् सुतस्य स्वामिना गच्छ दृढनिर्देशयेत्यपि आशेषो मातृदेव्या सपत्रद्वारेण लब्धवान् ज्ञातमेव तयालूलम् अनुकूलैङ्गितं गुरोः अनन्तस्वामिना यात्रा विदेशं प्रति निश्चिता संविधानं तदर्शं च समस्तं परिपूरितं स्वामिनः प्रियशिष्यस्य क्षेत्रीभूपस्य नन्दन भूजात इति सद् सद्वार्ता स्वामिनं च नवेदयत् आशिश्च नवजाताय खेत्रीं गत्वा प्रतीयताम् इत्यर्थिनं यदाराज्ञा स्वामिना तत्तु सम्मतम् आसीतपुत्रस्य जननं नृपस्य चिर्वाञ्छितम् आसीषा स्वामिनस्तत्तु सम्भूतम् इति तन्मतिः तस्याभिलाषपूर्त्यर्थं स्वामी खेत्रीं गतः पुनः विलोक्यराजपुत्रं च आशीर्वादं ददावपि अमेरिकागमनाय स्वामिर्वर्यस्य संविधाः सकलायपि भूपेन समग्रीत्या निवर्तिताः संचेर सञ्चेरदिति भूपति प्रार्थनाम् अकरोत् स्वामी विदेश विदेशगमनार्थं स मुम्बयीं प्रथमं गतः तस्यानुगमनं राज्यकार्यकर्ता समाचरत् सन्यासिनौ संसतिष्ठौ द्वौ मार्गमध्ये ददर्श आख्यापयस्य तौ स्वस्य चिगागो गमनं तदा अटनं भारते नानास्थले सुकृतवानहं दृष्ट्वा जनानां दारिद्रम् अहमशून्यपातयम् तेषां दुःखस्य समनम् आदौ भवितुमर्हति पश्चात्तान् प्रति कर्तव्यं धर्मसम्बन्धिभाषणं दीनानां भारतीयाणां मुक्तिलाभाय केवलं गच्छाम्यहम् अमेरिकां स्वामिलैवमुदीरितं मुम्बईनगरं स्वामि समायात ततः परं विदेशं प्रतिसंतारं सञ्चारं विधातुं पोतमाश्रितः यानार्थं चीटिकावस्त्रम् आवश्यकधनं शपे भूपती कृतवान् आसीत् सर्वस्य संविधानं त्रिनवत्यधिके पश्चाद् अष्टादशशतात्मके संवत्सरे च मे मास एकत्रिंशदिने तथा यात्रामारब्धवान् त्रिंशद् दर्शि यौषा यदा भवत् भागं ग्रहीतुं धर्म मेलरे।